Ha, ha, ha. चिरमविजरत्वम् प्रीणय प्रणगम् त्वधरमधुलोला कातरा सावियोगे चलितु अनवगासा मुद्रिता मोहकोशे गणितरजनि शेष ृङ्गयोषेव बृङ्गयोषेव खिन्ना अपि चिरजसि चेत्वं भावजं वा रुजं वा परिहर परमेश प्राणितुं प्रेयसी देव परिचय सरसानां सखीन वियोगेपि अनुकलयति तापम् किम् पुनः प्रणभन्तु अध्यै वहन्त कुसुमायुधजैत्रयात्रा विस्तारिताम् पटकुटीमकरङ्गीते वये आलो गभीत सकलारिकलादशाभिः आभद्धरश्मिः उदिता हरिणाङ्गू तितनु हिममानो विरहकृशानौ च दगति बहुबीद अविरलितभाष्पपूरम् शोकमधीरम् vite re sa shukamadhi rerum vite re sa